राधे राधे राधे राधे राधे राधे राधे राधे दिव्यप्रमोद ीचि निचयैरभिषेचयन्ति दिव्यप्रमोद रससार निजाङ्गसङ्गपीयुष वीचि निचयैरभिषेचयन्ति कन्दर्पकोटि शरमूर्च्छितनन्दसूनुसञ्जीवनी जयतिकापि निकुञ्जदेवी कन्दर्पकोटिशरमूर्च्छितनन्दसूनुकसञ्जीवनी जयति जयतिकापि नुञ्जदे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे